अत तैत्त्र्य आरण्यः पञ्चमप्रश्नप्रारम्भः ओषन्नस्तम् ओम नोमासीत् ओम् शान्ति तिष्ाम् तिषान्तिः देवा वैसक्रमासता वृद्धिपरिमितम् यशस्कामाः ते ब्रुवन् नः प्रथमै सर्वेषां नस्तत्सहा सदिति तेषाम् कुरुक्षेत्रम् वेदिरासीत् तस्यै खाण्डवो दक्षिणार्थासीत् दूर्घमुत्तरार्धः परिणज्जघनार्धः नरव उत्करः तेषाहम् मघम् वैष्णवं यश आर्च्यकामयत तेनावाक्रामत् तम् यशोवरुत्समानाः तस्यान्वागतस्य सव्याद्धनुरजागत दक्षिणादिशवः तस्मादिषु धन्वम् पुण्यजन्म यज्ञजन्मा हि तमेकगुंसन्तम् बहवो नाभ्यधिष्णुवन् तस्मादेकविषु धन्विलम् बहवो निषु धन्वानाभिधिष्णुवन्ति ओ स्मयत एकम् आसन्तम् बहवो नाभ्यधर्षिषुरिति तस्य शिष्मियानस्य तेजोपाक्रामते तद्देवा ओषहीषून्यमृजुः ते श्यामा का अभवन् स्मया का वैनामैते तत्स्मया का नागस्मया कम् तस्माद्दीक्षितेनापि गृह्य स्मेतव्यम् तेजसोधृत्यैः सधनश्वतिष्कभ्यातिष्ठत् ता उपदीका अब्रुवन्वरम् मृणामहै अथव इमघुम् रन्धयाम यत्र क्वचखनाम तदपोभितृणदामेति तस्मादुपदेका यत्रक्वचखनन्ति तदपोऽभितन्दन्ते आरेवृथगृह्यासाम् तस्य ज्यामप्याजन् तस्य धनुर्विप्लवमाणगं शिर उदवर्तयत् तद्यावापृथिवेगु प्रावर्तत यत्प्रावर्तत तत्प्रवर्ग्यस्य प्रवर्घ्यत्वम् यद्भ्रावदत् तत् घर्मस्य घर्मत्वम् महतो वेद्यमपाप्तदिति तन्महावीरस्य महावीरत्वम् यदस्याः समभरन् तत्सम्राज्ञः सम्राट्त्वम् तदस्त्रितम् देवतास्तेधाद्यगृह्णता अग्निः प्रातः सवनम् इन्द्रो माध्यम् जनगम् सवनम् विश्वे देवास्तृतीयसवनम् तेनापशीर्ष्णा यज्ञेन यजमानाः नाशिशोबारुन्धत न सुवर्गम् लोकमभ्यजयन् ते देवा अश्विनावब्रुवन् भिषघैस्थः इदज्ञस्य शिरः प्रतिधत्तमिति तावब्रूतान् परम् नृणावहै ग्रह एव तावेदद्यज्ञस्य शिरः प्रत्यधत्ताम् यत्प्रवर्ग्यः तेन सशेषर्ष्णायज्ञेन यजमानाः अवाशिषोरुन्धत अभिसुवर्धम् लोकमजयन् यत्प्रवर्ग्यम् प्रवृणत्य यज्ञस्यैव तच्छिरः प्रतिदधाति तेन सशेषर्ष्णायज्ञेन यजमानः अवाशिषोरुन्धे अभिसुवर्गम् लोकम् अभिसु जयति तस्मादेष आश्वरप्रवयादिव यत्प्रवर्ग्यः सावित्रम् जुहोति प्रसोति चतुर्गृहीतेन जुहोति चतुष्पाकः पशवः पशूनेवावरुन्धे ततस्रो दिशः दिक्ष्वेव प्रतितिष्ठति छन्दा पुंसि देवेभ्यो बाक्रामन्य नवो भागानि हव्यम् वक्ष्याम इति दोनुवाक्यायै राज्यायै देवतायै वषत्काराय यच्चतुर्गृहीतञ्जुहोति छन्दागस्येव तत्प्रीणाति तान्यस्य प्रेतानि देवेभ्यो हव्यम् वहन्ति ब्रह्मवादिना वदन्ति होतव्यन्ते क्षितस्य गृहातव्या हो मिथे यविर्वैदेक्षितः यज्जुहुजात् हविष्कृतम् यजमानमग्नौ प्रदध्यात् यन्नज्हुजात् यज्ञपरुरन्तर्यात् यजुरेव पदेत् न हविष्कृतम् यजमानमग्नौ प्रदधाति न ना यज्ञपरुरन्तरेति नाजक्रे छन्दाजस्यत्यमन्यत तस्यैव तस्यै ए द्वेधा रसः प्रापतत् पृथिवीमर्धः प्राविशत् पशूनर्धः यः पृथिवीम् प्राविशत् सखधिरोऽभवत् यः पशून् सोऽगाम् यत्खादर्यभिर्भवति छन्दसा मे वरसेन यज्ञस्य शिरः सम्भरति यदौदुम्बरी कोर्ग्वा ऊदुम्बरः कोर्जैव यज्ञस्य शिरःस्रम्भरति यद्वैणवी तेजोवी वेणः तेजसैव यज्ञस्य शिरः सम्भरति यद्वैकम् गते भा एवावरुन्धे देवस्य त्वा सपितुः प्रसव इत्यभ्रिमादत्ते प्रसूत्ये अश्विनार्बाहुभ्यामित्याह अश्विनौ हि देवानामध्वर्यो आस्ताम् ष्णो हस्ता आभ्यामित्याहयत्यै वज्रगिम वा एषा यदभ्रिः तभ्रिगसिनाजगसेत्याहशान्त्यै अद्धरकृद्देवेभ्यलित्याह यज्ञो वा अद्धरः यज्ञकृद्देवेभ्य इति वावैतदाः यज्ञस्य शिरोच्छैति प्रैतुब्रह्मणस्पतिलित्याह प्रेत्यैव यज्ञस्य शिरोच्छैति प्रत्यज्ञे तु सूदृतेत्याह यज्ञा वै सूनृताः अच्छा वीरन्नर्यम् पङ्क्तिराधसमित्याः पान्तो हि यज्ञः देवायज्ञम् नयन्तु न यः देवानेव यज्ञनियः कुरुते देवी यद्या वा आभ्यामेवानुमतो यज्ञस्य शिरः रुध्यासमद्य मखस्य शिर इत्याह यज्ञो वै मखः रुध्यासमद्य यज्ञस्य शिर इति वा वैतदाह मखायत्वामखस्य त्वाशीर्ष्ण इत्याह निर्दिश्यैवै न लोकाः एभ्य यज्ञस्य शिरः सम्भरति कूष्णीम् चतुर्थगम् अपरिमिता देवैस्य शिरः सम्भरति मृत्खनादग्रे हरति तस्मान्मत्खनः करुण्यतमः यद्यग्र आसीदित्याह तस्यामेवाच्छम्बकारम् यज्ञस्य शिरः सम्भरति ओर्जम् वा एतकम् रसम् पृथिव्या उपदेका उद्दिहन्ते यद्वल्मेकम् यद्वल्मेकवपासम्भारो भवति ऊर्जमेव रसम् पृथिव्यारन्धे अथो श्रोत्रमेव श्रोत्रगृह्येतत्पृथिव्याः यद्वल्मीकः अवधिरो भवति य एवम् वेद गुजरो वृद्धा यवध्रमुदयच्छत् स यत्र यत्र पराक्रमत तन्नाध्रियत सपूतेकस्तम्बे पराक्रमत सोऽध्रियत सोऽब्रवीत् भूतिम्बै यदूतीका भवन्ति यज्ञायैवो दिम् दधति अग्निजा असि प्रजापतेरेतवित्याः य एव रसः पशून् प्राविशत् तमेवावरुन्धे पञ्चयिते सम्भारा भवन्ति पान्तो यज्ञः यावानेव वा यज्ञः तस्य शिरः सम्भरति यद्ग्राम्याणाम् पशूनाम् चर्मणा सम्भरेत् ग्राम्यान्पशोञ्छुचार्पयेत् कृष्णाजनेन सम्भरति आरण्यानेव पशोऽच्छुतार्पयति तस्मात्समावत्पशूनाम् प्रजायमानानाम् आरण्याः पशवः कनीजागुंसः श्रुताहृताः वोमतः सम्भरति अतो ह्यस्य रक्षसामपहत्यै बहवो हरन्ति उद्धते सिखतोपोक्ते परिश्रुते निदधति शान्ते वदन्तिभिरुपसृजति ते जगे वास्मिन् दधाति मधुरत्वा मधुराकरोत्वित्याह ब्रह्मणैवास्मिन् तेजो दधाति यद्ग्राम्याणाम् पात्राणाम् कपालैः सगम् सृजेत् ग्राम्याणि पात्राणि सुखार्पयेत् कर्मकपालैः सगम् सृजति एतानि अनुप वा अनुपजीवनीदानि तान्येव श्रुतार्पयति शर्कराभिः सगम् सृजति धृत्यै रथो शन्ताया रथलोमैः सगम् सृजति एषा वा अग्नेः प्रजातनोः यदजा प्रियदैवैनन्तनुवासगम् सृजति अथो तेजसा कृष्णाजुलस्य लोमभिः सगम् यज्ञो वे कृष्णाधिनम् यज्ञेनैव यज्ञगुंसगुंसृजति परिश्रुते करोति ब्रह्मवर्चसस्य परिगृहेत्यै न यत कुर्वन्नभिप्राण्यात् यत्कुर्वन्नभिप्राण्यात् प्राणान्शुतार्पयेत् अपहाय प्राणिते प्राणानाङ्गोऽपीठाय न प्रवर्यम् चाधित्यम् चान्तरेजात् यदन्तरेजात् दुष्टर्मा स्यात् तस्मान्नान्तरायम् आत्मनो गोपीठाय वेणुना करोति तेजो वै वेणुः तेजः प्रवर्यः तेजसैव तेजः समर्थयति मखस्य शिरोऽसीत्याह यज्ञो वै मखः तस्यैतच्छिरः यत्प्रवर्ग्यः यज्ञस्य पदे स्थगित्याः यज्ञस्य ह्येते पदे अथो प्रतिष्ठिते गायत्रेण त्वा छन्दसा करोमीत्याह छन्दोभिरेवैनम् करोति विवृद्धिम् करोति त्रय इमे लोकाः येषाम् लोकानामाप्ते छन्दोभिः करोति गीर्यम् वै छन्दांसि गीर्येणैवैनम् करोति यजुषाबिलम् करोति व्यावृत्त्यै नियन्तम् करोति प्रजापतिना यज्ञमुखेन यन्तं यन्तम् करोति यज्ञपरुषासंवितम् यन्तं करोति करो एतावद्वै पुरुषे वीर्यम् यीर्यसंवितम् अपरिमितम् करोति अपरिमितस्यावरुध्यै परिग्रीवम् करोति धृत्यैः सूर्यस्य हरसाश्रायेत्याह यथा यजुरेवैतत् अश्वशकेन धूपयति प्राजापत्यो वा अश्वस्य जो नित्वा जष्णोऽश्वस्य निष्पदसेत्याह असौ वा आदित्यो वृषाश्वः तस्य छन्दा पुंसि निष्पत् छन्दोभिरेवैनन्धोपयते अर्चिषेत्त्वाश्योतिषेत्त्वेत्याह ते जगेवास्मिन् दधाति वारुणो भेग्धः मैत्रियोपैतिशान्त्ये ध्येत्वेत्याह यथाैतत् देवस्त्वा सवितोद्वपत्वित्याह सवितृप्रसूत एवैनम् ब्रह्मणा देवताभिरुद्वपदि अपद्यमानः पृथिव्यामाशादिश आपृणेत्याह तस्मादग्न्यः सर्वादिशो न विभाति उत्तिष्ठबृहन्भगोऽर्ध्वस्तिष्ठध्रुवस्त्वमित्याह प्रतिष्ठित्यै ईश्वरो वा एषोऽधो भवितोः यः प्रवर्ज्यमरेक्षे सूर्यस्य त्वा चक्षुषान्ये रेक्षयित्याः चक्षुषो गोपीठाय रजवे एत्वा साधवे एत्वा सुक्षित्यै त्वा भूत्येतेत्याः यम् वा ऋजुः अन्तरिक्षगम् साधु असौ वास्मै लोकान् कल्पयति अथो प्रतिष्ठित्यै इदमहाममानुष्याजनम् विशा पशुभिर्ब्रह्म वर्चसेन पर्योहामेत्याह विषैवम् पशुभिर्ब्रह्म वर्चसेन पर्योहदे विषेधिराजन्यस्य ब्रूजाद् विषैवैनम् पर्योहदे पशुभिर्दिवैश्यस्य पशुभिरेवैनम् पर्योहदे असुर्यम्बात्रमणाच्छिन्नम् आच्छिणत्ते देवत्राकः अजक्षीरेणाच्छिणत्ते परमम् वा एतत्पयः यदजक्षीरान् परमेणैवैनम् प्रयसाक्षिणत्ति यजुषाव्यावृत्त्यै छन्दोभिराच्छिणक्ति छन्दोभिर्वा येष क्रियते छन्दोभिरेव छन्दगस्याच्छिणत्ति छन्धिवाचमित्याह वाचमे वरुन्धे छ्रन्ध्योर्जमित्याह ऊर्जमे वरुन्धे छन्धिभविरित्याह अभिरेवाकः देवपुरश्चरसख्यासन्तेह यथा यदिरेवैतत् ब्रह्मन् प्रचरिष्यामोहोदर्घर्ममभिष्णुहीत्याह एष वा एतर्हि बृहस्पतिः यद्ब्रह्मा तस्मा एव प्रच्य प्रचरति आत्मनो नार्त्यै यमायत्वामघायत्वेत्याह एता वा एतस्य देवता ताभिरेवैरम् समर्थयति मदन्तेभिः प्रोक्षते तेजरेवास्मिन् दधाति ते अभिपूर्वम् प्रोक्षते अभिपूर्वमेवास्मिन् तेजो दधाति त्रिः प्रोक्षति त्वयज्ञः अथो मे ध्यक्त्वाय होतान्वाह रक्षसामपहत्यै अनवानम् प्राणानागम् सन्तत्यै तिष्टुभः सदीर्गायत्रीरिवान्वाह गायक्रो हि प्राणः प्राणमेव यजमाने दधाति सन्ततमन्वाः प्राणानामन्नाद्यस्य सन्तत्यै अथो रक्षसामपहत्यै यत्परिमिता अनुब्रूयात् परिमितमवरुन्ध्येत अपरिमिता अन्वाः अपरिमितस्यवरुध्ये शिरो वा एतद्यज्ञस्य यत्प्रवर्ग्यः ओर्मुञ्जा आह यन्मौञ्जो वेदो भवति ऊर्जैव यज्ञस्य शिरः समर्थयते प्राणाहुतेऽर्जुहोते प्राणानेव युजमाने दधाति सप्तजुहोते सप्त वैशीर्षण्याः प्राणाः प्राणानैवास्मिन् दुधाति दे। देवस्त्वासमितामध्वानक्मित्याः तेजसै वैनमनगे पृथिवीम् तपसस्त्रादिस्वेति हिरण्यमुपास्यति अस्या अगाहाय शिरो एतद्यज्ञस्य यत्र प्रद्यः अग्न्यः सर्वा देवताः प्रलवानादेप्योपास्यते देवतास्वेव यज्ञस्य शिरः प्रतिदधाति अप्रतिशीर्णाग्रम् भवति एतद्वद्य अर्चिरशिशोचिरसेत्याः यजदेवास्मिन्ब्रह्मभवच्च संवधाति सम्सेदस्वमहागम् असेत्याः महारह्येषः ब्रह्मवादिनो वदन्ति ये देवावतऋत्विगः ये दर्शपोर्णमासयोः अथ कथाहोदा यजमानायाशिशो नाशास्तमिति पुरस्तादाशेः खलु वा अनन्यो यज्ञः उपरिष्टादाशीरण्यः अनाधिष्यापुरस्तादिति यदेतानि यजो विश्याः शीर्षत एव यज्ञस्य यजमान आशिषोपरुन्धे आयः पुरस्तादाः पुरस्ता प्रजाम् दक्षिणतः प्राणम् पश्चात् श्रोत्रमुत्तरतः निधिरिमुपरिष्टात् प्राणानेवास्मै समीपोद्भाति ईश्वरो वा एष दिशो नान्मदितोः यन्दिशो नव्या स्थापयन्ति मनोरश्वासि भूरिपुत्रेऽति वा मरिवृशति इयं वै मनोरश्वा भूरिपुत्रा अस्यामेव प्रतिष्ठत्यनम् मादाय सोपसदा मे भूरिदा मा हिपुंसे नित्याहाहिपुंसायै चितस्थपरिचितगित्याः अपचितिमेवास्मिन् दधाति शिरो असौ खलु वा आदित्यः प्रवर्ग्यः तस्य मरुतो रश्मयः स्वाहा मरुद्भिः परिश्रगस्वेत्याह अमुमे वादित्यमुम् रश्मिभिः पर्योहति तस्मादसा वादित्यो वृश्मिम् लोके रश्मिभिः पर्योढः तस्माद्राजा विशापर्यूढः तस्माद्रावणे स जातेः पर्यूढः अग्नेः सृष्टस्य यतः विकङ्कतम्भा आर्झत् यद्वेकङ्गताः परिधयो भवन्ति भा एवावरुन्धे द्वादश भवन्ति द्वादशमासाः संवत्सरः संवत्सरमेवावरुन्धे अस्त्यत्रयो दशो मास इत्याहुः यत्रयो दशः परिधिर्भवति तेनैव त्रयो दशम् मासमवरुन्धे अन्तरिक्षस्यान्तर्धिरसेत्याहव्यावृत्त्यै दिवन्तपसस्त्राजस्वेद्विपरिष्टादिधिरण्दधाति अमुष्या अननिदाहाय अथो आभ्यामेवैनमुभयतः परिगृह्णाति अर्हन्विभर्षि सायकानिधन्वेत्याह सोऽत्येवैनमेतत् कार्यक्रमसित्रेष्टुभमसि जागतमसेति धवित्राण्यादत्ते छन्दोभिरेवैनान्यादत्ते मधुमधिधुनोति प्राणो वै मधो प्राणमेव यजमाने दधाति रिःपरिजन्ते त्रिवृद्धिः प्राणः त्रिः परिजन्ते त्वया वृद्धियज्ञः अथो रक्षसामपहत्ये त्रिः पुनः परिजन्ते षट्सम्पद्यन्ते षड्वा ऋतवः ऋतुष्वेव धर्मस्य प्रियान्तनुवमाक्रामते दुश्चर्मा वै स भवति एष ह वा अस्य प्रियान्तनुक्रामति यस्त्रिः परेत्य चतुर्थम् पर्येति एतागम् हवा, हवा अस्योऽग्रदेवो राजनिराचक्राम ततो मे स दुश्चर्मा भवत् तस्मात् त्रिः परेत्य प्राणानामव्यतिषङ्गाजकृत्यै निषद्यधून्वन्ति दिक्षेव प्रतिष्ठन्ति ऊर्ध्वम् धून्वन्ति स्वर्गस्य लोकस्य समष्ट्ये सर्वतोधून्वन्ति तस्मादयगम् सर्वतः पवते अग्निष्ट्वासुभिः पुरस्ता अग्रोचयतु गायत्रेण छन्दसेत्याह अग्निरेवैनम् वसुभिः पुरस्ता आद्रोचयति आगत्रे न छन्दसा समारुचितो रोचयेत्याह आशिषमेवेतामाशा आस्ते इन्द्रस्त्वा रुद्रेर्दक्षिणतो रोचयतु आशिषमेवैतामाशास्ते वरुणस्त्वादित्यैः पश्चाद्रोचयतु जागते नछन्दसेत्याह वरुण एवै नमादित्यैः पश्चाद्रोचयति जागते नछन्दसा समारुचितो रोचयेत्याह आशिषमेवैतामासास्ते युरानस्त्वामारुतो मरुद्भिरुक्तरतो रोचयत्वानुष्टुभे नछन्दसेत्याह विन एवम् मारुतो मरुद्भिरुत्तरतो रोचयत्यानुष्टुभे रो नछन्दसा समारोचितो रोचयेत्याह आशिषमेवैकामाशास्ते बृहस्पतिस्त्वाविश्वैर्देवैरुपरिष्टाद्रोचयतुपाङ्क्ते नछन्दसेत्याह बृहस्पतिरेवैनम् विश्वे यद्देवे उपरिष्टाद्रोचयति कान्ते गच्छन्दसा समारुचितो रोचयेत्याः आशिषमेवेतामाशास्ते रोचितस्त्वम् देवकर्म देवेश्वसेत्याः रोचितो ह्येष देवेषु रोचषेयाहम् मनुष्येष्वित्याः रोचत एवेश मनुष्येषु सम्राघर्मरुचितस्त्वम् देवेष्वादुष्मागस्तेजस्वे ब्रह्मवर्त्यस्य सेत्याह रुचितोऽर्ह्येष देवेष्वादुष्मागस्तेजस्वे ब्रह्मवर्चसे रुचितोऽहम् मनुष्येष्वादुष्मागस्तेजस्वे ब्रह्मवर्चसे भोजासमित्याह रुचित एवेश मनुष्येष्वादुष्मागस्तेजस्वे ब्रह्म वर्तसे भवति मृगसिरुचम्मयि धेहिमजुगीत्याह आशिषमेवैतामाशास्ते कैयदेतैर्गजुर्भिरोचयित्वा ते उचितो घर्म इति प्रभ्रूयात् अरोचिको ध्वर्युः स्यात् अरोचिको यतमानः अथ यदेनमेतैर्गजुर्भिरोचयित्वा उचितो घर्म इति प्राह रोचिको रोचको यतमानः शिरो वा एतद्यज्ञस्य यः प्रवर्ग्यः ग्रीवा उपसदः पुरस्तादुपसदाम् प्रवर्ग्यम् प्रवृणग्ति ग्रीवास्वेव यज्ञस्य शिरः प्रतिदधाति त्रिः प्रवृणग्दि त्रय इमे लोकाः एभ्य एव लोकेभ्यो यज्ञस्य शिरोवरुन्धे षट्सम्पद्यन्ते षड्द्वारिवः ऋतुभ्य एव यज्ञस्य शिरोवरुन्धे द्वादशकृत्वः प्रवृणद्ये द्वादशमासाः संवत्सरः संवत्सरादेव यज्ञस्य शिरोवरुन्धे चतुर्विवंशतिः सम्पद्यन्ते चतुर्विगंशतिरर्धमासाः अर्धमासेभ्य एव यज्ञस्य शिरोवरुन्धे अथो खलु सकृदेव प्रवृज्यः एकम् शिरः अग्निष्टोमे प्रवृणग् एताभा वै यज्ञः यावानग्निष्टोमः यावानेव यज्ञः तस्य शिरः प्रतिदधाति नोक्षे प्रवृञ्जात् प्रजा वै पशव उक्थानि यदुक्षे प्रवृञ्जात् प्रजाम् पशो नस्य निर्दहेद् विश्वजितिसर्वपृष्ठे ऋष्ठैरेवास्माच्युतञ्चावयित्वावरुन्धे अपश्यम् गोपामित्याह प्राणो वै गोपाः प्राणमेव प्रजासु विजाचयति अपश्यम् गोपामित्याह असौ आदित्यो गोपाः स हेमाः प्रजागोपादिति तमेव प्रजानाङ्गोप्तारम् गुरुते अनिपद्यमानमित्याह न ह्येष निर्वद्यते आ च परा च पथिभिष्टरन्तमित्याह आचक्येष परा च पथिभिष्टरति स सध्रे चे स विशोचेऽर्वसानरित्याह सध्रे चेश्चक्येष विशोचेश्चवसानः प्रजा अभिविपश्यति अत्र प्रावेर्मृधुमाध्येयेभ्याम् मृधुमाधोजेभ्यामित्याह वासन्तिकादेवस्मारुतो गल्पयति समग्निरग्निना गतेत्याह भेष्मावेवस्मारुतो गल्पयति समग्निरग्निना गतेत्याह अग्निह्येवैषो अग्निना सङ्गच्छते स्वाहा समग्निस्तपसा पूर्वमेवोदिताम् उत्तरेणाभिकृणाति धर्ताविवो विभासिरजसः पृथिव्या इत्याह वार्षिकामेव स्माहृतो गल्पयति हृदे त्वामनसे त्वेत्याह शारदावेव स्माहृतो गल्पयति दिवि देवेषु होत्रा यच्छेत्याह होत्राभिरेवे हैवन्तिकामेवस्मा ऋतो गम्पयति देवश्रोस्त्वम् देवघर्मदेवान्वाहीत्याह शैशिरादेवस्मा ऋतो गम्पयति तपोजाम् वाचमस्मै न यच्छ देवायुममित्याह यावै मेऽध्यावाद दे सा गर्भो देवानामित्याह गर्भो ह्येष देवाना पितामतीनामित्याह प्रजा वै मतयः तासामेष एव पिता यत्प्रवर्ग्यः तस्मादेवमाह पतिः प्रजानामित्याह पतिः शेष प्रजानाम् मतिः कवीनामित्याह मतिर्ह्येष कवीनाम् सन्देवो देवेन समित्रायतिष्ठसगं सौर्येणारुक्तेत्याह अमुञ्चैवादित्यम् प्रवर्ग्यम् च सघंशास्ते आदिर्दास्त्वमस्मभ्यम् धर्मवर्चोदासेत्याः आशिषमेवैतामाशास्ते पितानोऽसि पितानो बोधेत्याह बोधयत्येवैनम् न वैतेऽवकाशा भवन्ति अग्न्यैदशमः न वमे पुरुषे प्राणाः नाभिर्दशमे प्राणानेव यतमाने दधाति अथोदशा अक्षरा विराड अन्नम् विराड विराजैवान्नाद्यमवरुन्धे यज्ञस्य शिरो उच्छिद्यत तद्देवाहोत्राभिः प्रत्यदधुः मृत्युजो वे एक्षन्ते एतावे होत्रा आह होत्राभिरेव यज्ञस्य शिरः प्रतिदधाति रुचितमवे एक्षन्ते रुचिताद्वै प्रजापतिः प्रजा असृजत प्रजानाम् सृष्ट्यैः रुचितमवे एक्षन्ते रुचिताद्वै पर्जन्यो वर्षति पर वर्षुकः पर्जन्यो पर भवति सम् प्रजा एधन्ते रुचितमदे एक्षन्ते रुचितम् वैर्ब्रह्मवर्चसम् ब्रह्मवर्चसि नो भवन्ति सर्वमाजर्जन्ते न पत्न्यवे एक्षेत यत्पत्न्यवेक्षेत प्रजायेत प्रजान्त्वस्यै निर्गहेत् यन्नावेक्षेत न ना प्रजायेत नास्यै ये प्रजान्निर्गहेत् तिरस्कृत्ययजुर्वाचयति प्रजायरे नास्यै ये प्रजान्निर्गहति तुष्टिमतीते स सपाद्धिः प्रजाः प्रजायन्ते देवस्यत्वा सविदुः प्रसव इति रशामादत्ते प्रसोत्यै अश्विनार्बाहुभ्यामित्याह अश्विनौ हि देवानामध्वर्यो आस्ता कोष्णो हस्ताभ्यामित्याहयत्यै आददेदित्यैरास्नासेत्याहयजुष्कृत्यै इडये ह्यदितये सरस्वतेहेत्याह एतानि वा अस्यै देवनामानि देवनामैरेवै नामाह्वयति असावे सावे सावेहीत्याह एतानि वा अस्यै मनुष्यनामानि मनुष्यनामैरेवै नामाह्वयति षट्सम्पद्यन्ते षड्वा ऋतवः ऋतुभिरेवै नामाह्वयति अदित्या सुष्णेशमसीत्याह यथा यजुरेवैतत् वायुरस्यैड इत्याह वायुदेवत्यो वै वत्सः कोषात्वोपावसृजत्वित्याह तौष्णा देवतया पशवः स्वदेवैनम् देवतयोपावसजति दे। अश्विभ्याम् प्रदापयेत्याह अश्विनौ वै देवानाम्भ्यषदो ताभ्यामे भ्यामेवास्मै भेषजम् करोति यस्ते स्तनः शैत्याह स्तोैना उस्रघर्मगुं शिपुंशास्रघर्मम् पाहि घर्माय शिगुंशेत्याह घर्मा यथा भ्रूजादमुष्मै देहीति तादृेव तद् दे बृहस्पतिस्त्वोपसीदत्वित्याह ब्रह्म वै देवानाम् बृहस्पतिः देवानाम ब्रह्मणै वै दानवस्थपेरवयित्याह नेभ्या ने वैनाम् करोति विश्वगृतो लोहिते नेत्याह्यावृत्त्यै अस्यभ्याम् बिन्वस्व सरस्वत्ये बिन्वस्वभूष्णे बिन्वः स्वरहस्पतके बिन्वस्येत्याः एताभ्यो ह्येषा देवताभ्यः पिन्वते इन्द्राय बिम्बस्वेन्द्राय बिम्बस्वेत्याह इन्द्रमेव भागधेन समर्थयति द्विरिन्द्रायेत्याह तस्मादिन्द्रो देवतानाम् भोजिष्ठभाक्तमः गायत्रोऽसि त्रेष्टभोसिजागतमसेति शखोपयमानादत्ते छन्दोभिरेवैनानादत्ते सहोर्जो भागेनोपमेहीत्याह ऊर्ज एवैनम् भागमकः अश्विनौ वा एतद्यज्ञस्य शिरः प्रतिबधतावब्रूताम् आवाभ्यामेव पूर्वाभ्याम् वशक्क्रियाता इति इन्द्राश्विना मधुनः सारथस्येत्याह अश्विभ्यामेव पूर्वाभ्याम् वशक्करोति अथो अश्विनामेव भागधेयेन समर्थयति धर्मम् पातवस वो यजता पडित्याह वसूने वहाधेये नमर्थय कुरिया सियान्नवकु रक्षागुंस यज्ञ वरीह परमे वशट जातया मष्कारो पलेज्ञगुम् रक्षागुम् सिघ्नन्ति स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमीत्याह यो वा अस्य पुण्यो रश्मिः स वृष्टिमनिः तस्मादेवैनम् जुहोति मधुहविरसेत्याह स्वदयत्येवैनम् सूर्यस्य तपस्तपेत्याह यथा यजुरेवैतत् या द्यावा पृथिवीभ्यामेवैनम् परिगृह्णाति अन्तरिक्षेणत्वोपगच्छामीत्याह अन्तरिक्षेणैवैनमुपगच्छति न वा एतम् मनुष्यो भर्तुमर्हति देवानान्त्वापितृणामनुमतो भर्तपुंसकेजमित्याह देवैरेवैनम् विगृभिरनुमत आदत्ते यिवादैनमेतदर्थयन्ति यत्पश्चात्प्रवृज्य पुरो जुह्वति तेजोऽसितेजो न प्रेहीत्याह ते च देवास्मिन् दधाति विभिः स्पृङ्माहि पुंसेरन्तरिक्षस्पृङ्माहि पुंसेः पृथिविः स्पृङ्माहि पुंसेरित्याहाहि पुंसायै सुवर् सुवर्मे यच्छदिवम् यच्छ दिवो मा पाहीत्याह उद्यत्यवातनामान्याः आत्मन्नेव यज्ञस्य शिरः प्रतिदधाति अणवानम् प्राणानागुम्सन्दत्यै पञ्चाह पाङ्को यज्ञः यावानेव यज्ञः तस्य शिरः प्रतिदधाति अग्नये त्वा तस्मा एवम् जुहोति सोमा यत्त्वा रुद्रवते स्वाहेत्याः चन्द्रमा वै सोमो रुद्रवान् तस्मादेवैनम् जुहोति वरुणायत्त्वादित्यवते स्वाहेत्याह अप्सुवै वरुण आदित्यवान् तस्मात् एवैनम् जुहोति बृहस्पतये त्वा विश्वते व्यावते स्वाहेत्याः ब्रह्म वै देवानाम् बृहस्पतिः ब्रह्मण एवम् जुहोति सवित्रे त्वर्भुमते विभुमते प्रभुमते वाजवते स्वाहेत्यः संवत्सरो वै सवितर्भुमान् विभुवान् प्रभुमान् वाजवान् तस्मा एवैनम् जुहोति यमायत्वाङ्गिरस्मते पितृमते स्वाहेत्यह प्राणो वै यमाङ्गिरस्वान्पितृमान् तस्मा एवम् जुहति एताभ्य एवैनम् देवता आभ्यो जुहोति दश सम्पद्यन्ते दशा अक्षरा विराट् अन्नम् विराट् विराजैवान्नाभ्यमवरुन्धे रौहिणाभ्याम् वै देवाः स्ववर्गम् लोकमाजन् त्वद्रौहिणयो रौहिणत्वम् यद्रौहिणो भवतः दौहिणाभ्यामेव तद्यजमानः स्ववर्गम् लोकमेति अहर्ज्योतिःकेतुराजुषताकम् सज्ज्योतिर्ज्योतिषागुस्वाहारात्रिर्ज्योतिःकेतुराजुषताकम् सज्ज्योतिर्ज्योतिषागस्वाहेत्याह आदित्यमेव तदमुष्मिल्लोकेऽह्परस्ताधार रात्र्या अवस्तात् तस्मादसावादित्यागुष्मिल्लोकेहो रात्राभ्यान्धृतः विश्वासा दक्षिणसदित्याः विश्वानेव देवान् प्रीणाति अथो दृष्ट्या एवैनम् पाति विश्वान् देवानजाडिहेत्याह विश्वानेव देवान् भागधेयेन समर्थयति स्वाहा कृतस्य धर्मस्य मधोः पिबतमश्विनेत्याह अश्विनावेव भागधेयेन समर्धयति स्वाहाग्निजे यज्ञजायशङ्गजुर्भिरित्याह अभ्येमैनम् धारयति अथोहविरेवाकः अश्विना घर्मम् पातगम्हार्दिवा नमहर्दिवाभिरोतिभिरित्याह अश्विना वेवभागधेयेन समर्थयति यनुपान्द्या वा पृथिवीमगम् सातामित्याहानुमत्यै स्वाहेन्द्राय स्वाहेन्द्रावणित्याह इंद्रज ही पुरुयते आश्रव्या यजेती वर्षकृते जुहोति रक्षसापहतेजति धर्मश्ने उत्तरे अनुवांदवा पृथिवी अमगुंसाहा म् भ्राव्यम् यथा वण्णमो दिवे नमः पृथिव्या इत्याह यथा यतुरेवैतत् द्विविधा इञ यज्ञम् यज्ञमिमम् द्विविधा इत्याह सुवर्गमेवैनम् लोकम् गमयति दिवम् गच्छान्तरिक्षम् गच्छ पृथिवीम् गच्छेत्याह येष्वेवैनम् लोकेषु प्रतिष्ठापयति पञ्च प्रदिशो गच्छेत्याह इक्ष्वेवैनम् प्रतिष्ठापयति देवान् घर्मवान् गच्छ पितॄन् घर्मवान् गच्छेत्याह उभयेष्वेवैनम् प्रतिष्ठा भजते यत्पिम्बते परशुकः पर्जन्या भवति तस्मात् पिम्बमानः पुण्यः यत्प्राङ्पि तद्देवाना यद्दक्षिणा यत्प्रत्यग तन्मनुष्याणाम् यदुदङ् तद्भृद्राणाम् प्राञ्चमुदञ्चम् बिंवजति देवत्रागः अथो खलु सर्वा अनुदिशः पिन्वजति सर्वा दिशः समेधन्ते अन्तःपरिधिन्वजति ते दशोस्कन्धाय इषेऽपि विहीत्याः इषमेवोर्जम् यजमाने दधाति यजमानायपि विहेत्याह यजमानायैवैतामाशिषमाशास्ते मत्यन् ज्येष्ठ्याजपि विहेत्याह आत्मन एवैतामाशिषमाशास्ेत्त्वाद्युम्नायत्वेन् द्विजायत्वा भोद्यैत्वेत्याह यथा चतुरेवैतत् धर्मासि सुधर्मा मेन्यस्मै ब्रह्माणि धारयेत्याह ब्रह्मन् देवैनम् प्रतिष्ठापयति नेत्वा वातस्कन्दयादिति यद्यभितरेत् अमुष्यत्वा प्राणे सादयाम् यमुना सह निरर्थम् गच्छेति ब्रूजाद्यम् न स्यात् यमेव द्वेष्टि तेनैनगम् सह निरर्थम् गमयति वोष्णे सरसे या, या एव देवताहुतभागाः ताभ्य एवैनम् जुहोति ग्रामभ्यः स्वाहेत्याह या ताभ्य एवैनम् जुहोति प्रतिरेभ्यः स्वाहेत्याः प्राणा तेभ्य एवैनम् जुहोति या वापृथिवेभ्यागस्वाहेत्याह या वा पृथिवेभ्यामेवैनम् जुहोति पितभ्यो घर्मे स्वाहेत ये वै जज्वाह ते पित घर्म तेफ्य वैनम जुहोतिद्रा रुद्रह स्वाहेत रुद्रमे भागधेय नमर्थय सर्वतयत उदं चरस्युद्र सिक यामेव दिशि रुद्रम् निरवदयते अपगुपस्पृशति मेद्ध्यत्वाज नान्वीक्षेत यदन्वेक्षेत चक्षुरस्य प्रमायुगग्नि स्यात् तस्मान्नान्वेक्ष्यः अपि परो मान्धोरात्ययैमापाह्येषा ते अग्ने समे तजा समेध्यस्वायम् मेघावर्त्यसा मान्धीरित्याह आजुरेवास्न्वर्चो दधा अभी पात्रिजाषा ते अग्नेजा सस्वाजुर्मेसाजुरेवास्ंवर्चो दधा अर्ज्योदर्ज्योतिर स्वाहासौर्जोज्योदर्ज्योति सौर्जस्वाहे यहां ब्रह्मवादिदे ोतव्यमग्निहोत्रा हो न होतव्या यद्यजुषाजुहुयात् हो अयथापूर्वमाहुते जुहुयात् यन्नजुहुयात् अग्न्यः परा भवेत् भूस्वाहेत्येव होतव्यम् यथा पूर्वमाहुते जुहोति नाग्न्यः परा भवति हुतगम् हविर्मधुहविरित्याह स्वदयत्येवैनम् इन्द्रतमेऽग्नामित्याह प्राणो वा इन्द्रतमोऽग्निः प्राण एवैनमिन्द्रतमेऽग्नौ जुहवति इतादोसि मामाहिपुंसे नित्याहाहि पुंसायै अस्यामते देवघर्म मधुमतो वाजवतः पितुमत इत्याह आशिषमेवैतामाशास्ते तथा विनाशीमहि वा माहि पुंसे नित्याहाहिगुंसायै तेजसा वा एतेऽभ्यर्थ्यन्ते ये प्रवर्गेण चरन्ति प्राश्नन्ति ते, ते, ते जवात्मम् दधते संवत्सरन्न मांसमश्नीयात् न सा मामुपेयात् न मृण्मयेन ना पिबेत् नास्य राम उत्सिष्टम् तेज एव तत्सर्गिष्यति देवासुराः संयत्ता आसन् ते देवाभिजयमुपयन्तः देवा बिभ्रातिशौर्ये ब्रह्म सन्यदधत यत्किञ्चदिवाकीर्त्यम् तदेतेनैव व्रतेना गोपायत् तस्मादेतद्व्रतम् चार्यम् तेजसो गोपीताय तस्मादेता नियजोगुंषु बिभ्राजः सौर्यस्येत्याहो स्वाहा आत्त्वा शोर्यस्य रस्मिभ्य इति प्रातः सगुम् साधयति स्वाहा आत्त्वा नक्षत्रेभ्य इति सायम् एता वा एतस्य देवताः ताभिरेवैरगुम् समर्थयति धर्मजाते दिविशुगितिस्र आहुते जुहोति छन्दोभिरेवास्येभ्यो लोकेभ्यः श्रुतमवयजते नियत्यग्रे जुहोति अथेयत्यथेयति त्रय इमे लोकाः एभ्य एव लोकेभ्यः शुचमवयजते अनुनाद्यानुमतिरित्याहानुमत्यै दिवस्त्वापरस्पाया इत्याह दिव एवेमाल्लोकान्दाधार ब्रह्मणस्त्वापरस्पाया इत्याह एष्वेव लोकेषु प्रजादाधार इत्याह प्रजास्वेव शिरोवा शिरो वा एतद्यज्ञस्य यत्प्रवर्ग्यः असौ खलु वा आदित्यः प्रवर्ग्यः यद्दक्षिणा प्रत्यञ्चमुदञ्चमुद्वासयेत् जिह्मञ्जज्ञस्य शिरोहरेत् प्राञ्चमुद्वासयति पुरस्तादेव यज्ञस्य शिरः प्राञ्चमुद्वासयति अस्मादसा पुरस्तादुदेति शफोपयमान् धवित्राणि धृष्टी इत्यन्वहरन्ति साऽत्मानमेवैमधुम् सतनम् करोति सा आत्मामुष्मिल्लोके भवति य वेद औदुम्बराणि भवन्ति वोर्जा उदुम्बरः ओर्जमेवा वरुन्धे अन्वित्या यज्ञकम् रक्षागुंसि जिधागुंसन्ति साम्नाप्रस्तोतान् वपवैति सा मवै रक्षोः रक्षसामपहत्यै त्रर्निधनमपैति लोकाः एभ्य एव लोकेभ्यो रक्षागस्यपहन्ति पुरुषः पुरुषो निधनमपैति पुरुषः पुरुषो हि रक्षस्वी रक्षसामपहत्यै यत्पृथिव्यामुद्वासयेत् पृथिवेगम् सुचार्पयेत् यदप्सो अपःश्रुचार्पयेत् यदोषधीषु ओषधीः श्रुतार्पयेत् यद्वहस्पतिषु वनस्पतेच्छुतार्पयेत् हिरण्यम् विधायोद्वासयति अमृतम् वै हिरण्यम् अमृत एवैनम् प्रतिष्ठापयति वलगुरसी संयुद्जापरषिपर्जे अग्नि या वाने त्य शुचकं शमये ऋपुन पर्जये ष्स्य षड्वा ऋतव ऋतुभरवा शुचकं शमज्रक्तिर्नारुत्याह जिय वृतनावर्य तस्मादेवमाह सदो विश्वाजुरित्याह सदो गोहीयाम् अपद्मेषो अपःपरयित्याह भ्रातृव्यापनुत्यै धर्मैतत्तेऽन्नमेतत्पुरीषमिति दध्नामधुमिश्रेण पूरयति कूर्ध्वा अन्नाद्यन्दधि कोर्जैवैनमन्नाद्येन समर्थयति अनशनायुको भवति य एवम् वेद रन्तिर्नावासिव्योगम् धर्व इत्याहरूपमेवास्यैतन्मभिमानव्यवृन्दिम् बन्धुताम् व्याकुष्टे स महामायुषासम् प्राणेनेत्याह आशिषमेवैतामासास्ते यसौ योऽस्मान्वेष्ट्यन् च वयम् दुष्म इत्याह अभिचार एवाश्येषः असिक्रदद्वृषा हरित्याह दृशाशेषः मृषा हरिः महान्यत्रोऽनदर्शकरित्याह सोऽत्येवैनमेतत् शिरशसमुद्रयो निरित्याह सामेवैनयोमयति नमस्ते अस्तु मामाहि पुंसे नित्याहाहिंसायै विश्वावसुपुंसोमगन्धर्वमित्याह यदेवास्य क्रियमाणस्यान्तर्यन्ति तदेवास्यैतेनाप्यायति विश्वावसुरधिकम् नो गृह्णात्वित्याह पूर्वमेवोदितम् उत्तरेणाभिगृणाति धियो हिन्वानो धियिन्न अभ्यादित्याह ऋतोनेवास्मै कल्पयति प्रासाङ्गन्धर्वो अमृतानिवचलित्याह प्राणा वा अमृता आह प्राणानेवास्मै कल्पयति एतत्त्वम् देवघर्म देवो इत्याह देवो ह्येष सम् देवानुपैति इदमहम् मनुष्योमनुष्यानित्याह मनुष्यो हि एष ईश्वरो वै प्रवर्ज्यमुद्वासयन् प्रजाम् पशुन् सोमपीठमनोद्वासः सोमपीठानुमेहि सह प्रजया सह प्रजामेव पुशन् सोमपीठमात्मम् धत्ते सुनित्रा न आप ओषधः सन्वित्याह आशिषमेवैतामाशा आस्ते दुर्मित्रास्तस्मै भूजासर्वोऽस्मान्द्वेष्टियम् च वयम् विश्व इत्याह अभिचार एवास्यैषः प्रवा एषोऽस्माल्लोकाच्यवदे यः प्रवर्ध्यमुद्वासयति उचुत्यञ्चित्रमिति सौरेभ्यः मृद्भ्याम् धारे जगायुहप्रत्येजुहोति अयम् वै लोको गार्हप्रत्यः अस्मिन्नेव लोके प्रतितिष्ठति असौखदुवा आदित्यः सुवर्गो लोकः यत्सौरी भवतः तेनैव सुवर्गाल्लोकान्न प्रजापतिम् वै देवाः शुक्रम् पयो दुह्रन् तदेभ्योऽनव्यभवत् तदग्न्यकरोत् तानि शुक्रियाणि सामान्यभवन् तेषाम् योरसोऽत्यक्षरत् तानि शुक्रजजोगुश्यभवन् शुक्रियानाम् वा एतानि शुक्रियाणि सामपयसम् वा एतजोरन्यत् देवाना यद यद देवानामन्यत्पयः यद्गोः पयः यदजाजेपयः तद्देवानाम् तस्माद्यत्रैतैर्यजुर्भिश्चरन्ति तत्पयसाचरन्ति प्रजापतिमेव तद्देवान् पयसान्नाद्येन समर्थयन्ति एषः त्वयि साक्षात्प्रवर्ग्यम् भक्षयति विदुषः प्रवर्ग्यः प्रवृज्यते उत्तरवेद्यामुद्वासयेत्तेजःकामस्य तेजो वा उत्तरवेदिः तेजः तेजसैव तेजः समर्थयति उत्तरवेद्यामुद्वासकेदन्न कामस्य शिरो वा एतद्यज्ञस्य यत्प्रवर्यः मुखमुत्तरवेदिः शेर्ष्णैव मुखगम् सन्दधात्यन्नाद्याय यत्र खलु वा एतमुद्वासितम् वजागुंसि पर्यासते परिवैतागुंसमाम् प्रजावजागस्यासते तस्मादुत्तरवेद्यामेवोद्वासयेत् प्रजानाङ्गीठाय पुरो वा पश्चाद्वोद्वासयेत् पुरस्ताद्वा एतद्यो दिरुजेति तत्पश्चान्निम् रोचति स्वामेवैनम् यो निमनोद्वासयति अपाम् मध्य उद्वासयेत् अपाम् वा एतन्मध्या ज्योतिरजायत ज्योतिःप्रवर्ग्यः स्व एवैनम् ज्योनः प्रतिष्ठापयति यम् दिश्यात् यात्रा स्यात् तस्याम् दिश्युद्वासयेत् एष वा अग्निर्वै ईश्वानरः यत्प्रवर्ग्यः अग्निनैवैनम् औदम्बर्यागम् शाखायामुद्वासयेत् ओर्वा उदुम्बरः अन्नम् प्राणः स्वघर्मः इदमहमनुष्यामुष्याजनस्य शुचा प्राणमपि दहामीत्याह शुचैवास्य प्राणमपि दहति ताजगार्तिमार्च्छति यत्र दर्भा उपदेकसन्तता स्यो तदुद्वासयेत् वृष्टिकामस्य एता वा अपामनोध्यावर्यो नाम यद्दर्भाः असौ खलु आदित्य इतो वृष्टिमुदीरयति असावेवास्मा आदित्यो वृष्टिम् नियच्छति ता आपो नियता धन्वनायन्ते प्रजापतिः सम्भ्रियमाणः सम्राट्सम्भृतः धर्मः प्रवृत्तः महावीर उद्वासितः असौ खलु बावेश आदित्यः यत्र वर्ग्यः स एतानि नामान्यकुरुत य एवम् वेद विदुरेनन्नाम्ना ब्रह्मवादिना वदन्ति यो वै वसी जातुम् संयथा नाममुपचरति पुण्या आर्तिम् वै स तस्मै कामयते पुण्या आर्तिमस्मै कामयन्ते य एवम् वेद तस्मादेवम् विद्वान् घर्म इति दिवाचक्षीत सम्राजितिनत्तम् एते वा एतस्य प्रिये तनुवो एते तस्य प्रियेनामनी प्रियेमैनम् तनुवा प्रियेण नाम्ना समर्थयति कीर्तिरस्य पूर्वागच्छति जनतामागतः दे दे दे ताम् देवाः प्रवर्गेणैवानुव्यभवन् प्रवर्येणाप्नुवन् यच्च दुर्विपुंस चकृत्वः प्रवर्ग्यम् प्रवृणत्य गायत्रीमेव तदनु विभवति गायत्रीमाप्नोति पूर्वास्तजनम् यतः कीर्तिर्गच्छति हैश्वदेवः सन्नः प्रसवः प्रवृत्तः सोमाभिकीर्त्यमाणः आश्विनः पयस्यानीयमाने मारुतः प्वन् सारस्वतो विष्यन्दमानः मैत्रः शरो गृहीतः ते ज उद्यतो वायोः क्रियमाणः प्रजापतिः हूयमानो वाग्भुदः असौ खलु वा वैश आदित्यः यत्प्रवर्यः स एतानि नामान्यकुरुत य एवम् ब्रह्मवादिनो वदन्ति यन्वृण्मयमाहुभिन्ना स्मवेध तस्मादेषोऽस्नुत इति वागेश इति ब्रूजात् वाच्येव वाचम् दधाति तस्मादश्नुते प्रजापतिर्वा एष द्वादशधाविहितः यत्प्रवर्यः यत्प्रागवकाशेभ्यः तेन प्रजा असृजत अवकाशेऽर्ध्वेवासुरा नसृजत यदूर्ध्वमवकाशेभ्यः तेनान्नमसृजत अन्नम् प्रजापतिः प्रजापदेर्वा एषः सविता भूत्वा प्रथमेहम् प्रवृज्यते तेन कामागुम् एति यद्वितीयेऽहम् प्रवृज्यते अग्निर्भूत्वा देवानेति यत्तृतीयेऽहम् प्रवृज्यते वायुर्भूत्वा प्राणानेति यच्चतुर्थेऽहम् प्रवृज्यते आदित्यो भूत्वा रश्मीनेति यत्पञ्चमेऽहम् प्रवृज्यते चन्द्रमा भूत्वा नक्षत्राण्येति यत् षष्ठेऽहम् प्रवृज्यते ऋतुर्भोत्वा संवत्सरमेति यत्सप्तमेऽहम् प्रवृज्यते धाता भूत्वा षत्वरीमेति यदष्टमेहम् प्रवृज्यते बृहस्पतिर्भोत्वा गायत्रीमेति यन्नवमेऽहन् प्रवृज्यते मित्रो भूत्वा त्रिवृत इमाम् लोकानेति यद्दशमेहम् प्रभृज्यते वरुणो विराजमेति यदेकादशेऽहम् प्रभृज्यते इन्द्रो भूत्वा त्रिष्कुभमेति यद्वादशेऽहम् प्रभृज्यते सोमो यत्पुरस्तादुपसदाम् प्रभृज्यते तस्मादितः पराङ्गमाल्लोकागुस्तपन्नेति यदुपरिष्टादुपसदाम् प्रभृज्यते तस्मादमुतोर्वागिमाल्लोकागुस्तपन्नेति य एवम् वेद अयतपदि षण्स्तन्नो माहासीत् ओम् शान्तिः शान्तिः शान्तिः इति तैत्रिय आरण्यः पञ्चमः प्रश्नः